आरोहवरसम्पन्नो दुर्धर्षः केनचिद् बलात् स च षोडशसाहस्रः कंस भ्रातृपुरःसरः सुनामासदृशस्तेन सकं सम्पर्यपालयत् य आसं सर्ववर्णास्तु हयास्तस्य युधिष्ठिरसगणो मिश्रको नाम षष्टिसाहस्र उच्यते कंसरोषमहावेगां ध्वजानूपमहाद्रुमां मत्तद्विपमहाग्राहां वैवस्वतवशानुगां शस्त्रजालमहाफेनां साधिवेगमहाजलां गदापरिघपाठीनां नानाकवचशैवलाम् रथनागमहावर्ताम् नानारुधिरकर्दमां चित्रकार्मुकल्लोलाम् रथाश्वकलिलह्रदाम्